दक्षिणम् वाथ वामम् वा पार्श्वमासीतपण्डितः रक्षिणाम् ह्यात्तशस्त्राणाम् स्थानम् पश्चाद्विधीयते नित्यम् हि प्रतिषिद्धम् तु परस्तादासनम् महत् न च सन्दर्शने किञ्चित्प्रवृत्तमपि सञ्जयेत् अपि ह्येतद्दरिद्राणाम् व्यलीकस्थानमुत्तमम् न मृषाभिहितं मनुष्येषु प्रकाशयेत् असूयन्ति हि राजानो नरानृतवादिनः तथैव चावमन्यन्ते नरान्पण्डितमानिनः शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः प्रियमेवाचरन् राज्ञप्रियो भवति भोगवान् ऐश्वर्यम् प्राप्य दुष्प्रापम् प्रियम् प्राप्य च राजतः अप्रमत्तो भवेद्राज्ञप्रियेषु च हितेषु च यस्य कोपो महाबाधः प्रसादश्च महाफलः